हरि श्री श्रीजगदम्बिकायै नमः अथ श्रीमद्देवी भागवत महापुराणे तृतीयस्कन्धे त्रयोदशोऽध्यायः राजोवाच हरिणा तु कथं यज्ञ कुतः पूर्वम् पितामह जगत्कारणरूपेण विष्णुना प्रभविष्णुना के सहायतु तत्र चन्द्रह्मणा के मामते पृथ्वीजो वेद तत्त्वज्ञा तन्मे ब्रूहि परन्दभ पश्चात्कुलम्यहं यज्ञं विधिदृष्टेन कर्मणा श्रुत्वा विष्णुकृतं यागम् अम्बिका या समाहितः व्यास उवाच राज शृणु महाभागवित्तरं परमाद्भुतं यथा भगवता यज्ञपूर्वकः विसर्जिता यदा देव्या दत्त्वा शक्ति शत्राश्रयः का जेशा पुरुषा दाता विमानवर्मास्थिता प्राप्ता महार्णभं घोरं त्रयस्ते विबुधोत्तमा चक्रुस्थानानि वासार्थं समुत्पाद्य धरमस्थिता आधारशक्ति अचला मुक्ता देव्या स्वयं ततः तदाधारा स्थिता दाता धर धरावेद समन्विता मद्रुकैश्च भयोर्मेद संयोगान् मेदिनी स्मृता धारण तथा सुंदरा प्रोक्ता पृथ्वी विस्तार है मतक गिरच कृत धारणा प्रवितरा गिर कृता महीधरा महाराज प्रोच विभुजन जातूपयोग जन विर कुतो मणि मयी शृङ्गैः शोभितः परमाधुतः मरीचे नार्दोत्रैश्च पुलस्य पुनः दक्षो वसिष्ठेते ब्रह्मणः प्रसिदासुता मरीचे कस्य बोधातो दक्षकन्या त्रयोदश ताभ्यो देवा च दैत्या च समुत्पन्नायनेकचः तदस्तु काशपे सृष्टिः प्रवृत्ता चातिविस्तरा मनुष्ये पशुसर्पादि रातिभेदै अनेकधा ब्रह्मण चार्धदेहात्तु मनुस्वायम्भुवो भवेत् शतरूपात तानारी सञ्जाता वाम भगत प्रियव्रतोत्तानपादौ सुतो तस्या बभूवतु तिस्रगण्यावधारोहा ह्यभवन् अतिसुन्दरा एवं सृष्टिं समुत्पाद्य भगवान् चकार ब्रह्मलोकञ्च मेरुशृङ्गे मनोहरम् वैकुण्ठं भगवान् विष्णुर्मारमणमुत्तमम् क्रीडास्थानं सौम्यञ्च सर्वलोकोपरिस्थितम् शिवोपी परमं स्थानं कैलासाख्यं चकारह। समासाध्य भूतगणं विचार यथा सर्गस्त्रीविट्टपो मेरुशिखरो परिकल्पितः तच्च स्थानं सुरेन्द्रस्य नानारत्न विराजितम् समुद्र मथुना प्राप्त पारिजात स्वरूप चतुरन्त तथा नाग कामधा उच्चैश्रवा तथा श्वो वै रम्भाद्यप्तर सहसथा दा। इन्द्रेणोपात्तमखिलं दातुं वै स्वर्गभोजनम् धन्वन्तरि चन्द्रमा च सागरा चे स्वर्गसितो विरासे देवो बहु गुणैवृतौ एवं सृष्टि समुत्पन्ना त्रिविधा नृपसत्तमय देवतीर्यङ् मनुष्यादिभेदेता विविधकल्पिता चैव चोद्भिजा च जरायुजा चतुर्भेदे समुत्पन्ना दीवा कर्मयुता किल सृष्टिं समासाद्य ब्रह्मविष्णु ेषु स्थानेषु शु चक्रु सर्वे तप्सितम् एवं प्रवर्तिते स्वर्गे भगवान् प्रभुरच्युतः महालक्ष्म्यात्मं तत्र चिक्रीड भुवने सके। एकस्मिन् समये विष्णुवैकुण्ठे संस्थितपुरा सुधासिन्धु स्थितं दीपं सस्मार मणिमण्डितम् यत्र दृष्ट्वा महामायां मन्त्र चासादिशुभ मृत्वा तां परमां शक्तिं स्त्रीभावं गमितो यया यज्ञ कर्तुं मनश्चक्रेऽम्बिकाया रमापतिः उत्तीर्य भोनात्तस्मात् समाहूय वरुणं चक्रं कुबेरं पावकं यमं। वसिष्ठं कश्यपं दक्षं वामदेवं बृहस्पतिं संभारं कल्पयामासयज्ञातं चापि विस्तरम् महाविभव संयुक्तम् सात्विकं च मनोहरम् मण्डपं विततं तत्र कारया मास शिल्पिभिः पृथ्वीजो वरया मास सप्तविंशति तु वर्षान् चिति सुविस्तरा प्रजे पुरब्रह्मणा मन्त्रान् देव्याबी च समन्वितान् जुहोस्ते हविकामं परिकल्पिते कुते तु वितते होमे वागवाच श्रीरिणी विष्णुं तदा समाभा च सुस्वरा मधुराक्षरा विष्णुत्वं भवदेवानां हरे श्रेष्ठ समत्सरा मान्यश्च पूजनीय च समर्थश्च सुरेष्वपि सर्वे तामर्चेष्यन्ति ब्रह्माद्या च सवासवाः प्रभविष्यन्ति भो भवि सर्वतः वरदस्थम् वर च सर्वेषाम् भविता मानवेषु वै कामदः सर्वदेवानाम् परमः परमेश्वरः सर्वयज्ञेषु मुख्यस्थम् पूज्य सर्वे च याज्ञिकै तम् जनाः पूजयिष्यन्ति वरदस्थम् भविष्यति श्रयिष्यन्ति च देवासाम् दानवैरति पीडिताः शरणस्थम् च सर्वेषाम् भविता पुरुषोत्तम पुराणेषु च सर्वेषु वेदेषु विततेषु च तं वै पूजतमकामम् कीर्तितव भविष्यति यदा यदा हि धर्मस्य ग्लानिर्भवति भूतले तदा शेनावतीर्यासु कर्तव्यं धर्मरक्षणं अवतारासु विख्याता पृथिव्याम् तव भाग च भविष्यति ममांसेन सर्वकार्यप्रसाधिने वाराहीनारसिंहीते नानाभेदीयने कथा नानायुधा शुभाकारा सर्वा भरणमण्डिता साभिर्युत्थ सदा विष्णु सुरकार्याणि माधवे सा भीक्षसि तत्सर्वं मज्जत्थ वरदानतः सा त्वया नावमन्तव्या सर्वदा गर्वलेशतः पूजनीया प्रयत्नेन माननीया च सर्वदा नोनम् ता भारते खण्डे शक्तये सर्वकामदा भविष्यन्ति मनुष्याणां पूजिता पतिमासुच, च तासान्तव च देवे च कीर्ति स्यादखिलेष्वपि द्वीपेषु सप्तस्वपि च विख्याता भुविमण्डले सा च त्वां वै महाभागमानव सकामा सततं हरे अच्छासूचोपहारे च नानाभावसमन्विताः चन्ति वेदोक्ते मन्त्रे नाम जपे तथा महि मात्व भूलोके स्वर्गे च मधुसूदन पूजनाद्देवदेवे च बुद्धि मेच मानवै व्यासोवाच इति दत्त्वा प्राण् वाणी विररामखसम्भवा भगवान्न विप्रीतात्माय भव श्रवणादिव समाप्त विधिवद् यज्ञम् भगवान् हरीश्वर विसर्जयित्वा तान् देवान् ब्रह्मपुत्रान्मुनेरथ जगामान्नुचरे सातं वैकुण्ठं गरुडध्वज स्वानिस्वानि च पुनः सर्वे सुरासतः मुनयो विस्मिता वार्तां कुर्वन्तस्ते परस्परम् ययो प्रमोदिता कामम् स्वाश्रमान् पावनानथ श्रुत्वा वाणीम् परमविशदाम् व्यो मदां श्रोत्ररम्याम् सर्वेषां वै प्रकृतिविषये भक्तिभाव च ददाथ चक्रु सर्वे धियमुनिगणा पूजनम् भक्तियुक्ता तस्या कामम् निखिलफलतम् सागमोक्तम् मुनिन्द्रा इति श्रीमद्देवी भगवते मापुराणे अष्टादशसहस्राम् संहितायाम् तृतीयस्कन्धे अम्बिकामखस्य विष्णुना अनुष्ठानयवर्णनम् नाम त्रयोदशोऽध्यायः श्री अम्बिकायार्पणमस्तु